एवम् देव चतुर्दशात्मकजगद्रूपेण जातः पुनस्तस्योर्ध्वम् खलु सत्यलोकनिलये जातोऽसि धातः स्वयम् यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्य जीवात्मकम् यो भूत्स्पीतरजो विकार विकसन्ना सिसृक्षारसः सोऽयम् विश्वविसर्ग दत्त हृदयः सम्पश्यमानः स्वयम् खल्वन वाप्य विश्वविषयम् चिन्ता कुलस्तस्थिवान् तावत् त्वम् जगताम् पते तप तपेत्येवम् हि वैहायसीम् वाणी कोऽसौ मामवदत् पुमानिति जलापूर्णे जगन्मण्डले दीक्षुद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यत दिव्यम् वर्ष सहस्रमात्ततपसा तेन त्वमाराधितस्तस्मै माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहिः क्रोध विमोह साद्वसमुखा भावास्तु दूरम् गताः सान्द्रानन्दरी च यत्र परमज्योतिः प्रकाशात्मके तत्ते धाम विभावितम् विजयते वैकुण्ठरूपम् विभो यस्मिन्नाम चतुर्भुजा हरिमणिश्यामा वदात द्विषो नानाभूषण रत्नदीपितदिशो राजद्विमानालयाः भक्तिप्राप्त तदा विदोन्नतपदा दीव्यन्ते दिव्या जनास्तत्ते धामनिरस्त सर्पशमलम् वैकुण्ठरूपम् जयेत् नानादिव्यवधूजनैरभिवृता विद्युल्लता तुल्यया विश्वोन्मादन हृद्य गात्रलतया विद्योतिताशान्तरा त्वत्पादाम्बुजसौरभैककुतुकाल्लक्ष्मि स्वयम् लक्ष्यते यस्मिन् विस्मयनीय दिव्यविभवम् तत्ते पदम् देहि तत्रैव प्रतिदर्शिते निजपदे रत्नासनाध्यासितम् बास्वत्कोटिलसत्किरीटकटकाद्याकल्पदि तक प्राकृति श्रीवत्साङ्कितमात्तकौस्तुभमणिच्छायारुणम् कारणम् विभोभातुमे। कालाम्भोदकलाय कोमलरुचीचक्रेण चक्रम् दिशा मावृण्वानमुदार मन्दहसित स्यन्द प्रसन्नानम् राजत्कम्बु गदारि पङ्कजधर श्रीमद्भुजा मण्डलम् स्रष्टुस्तुष्टिकरम् वपुस्तव विभो मद्रोगमुद्वासयेत् दृष्ट्वा सम्भृत सम्भ्रमः कमलभुस्त्वत्पादपाथोरुहे हर्षावेशवशम् वदो निपतितः प्रीत्या कृतार्थीभवन् जानास्येवमनीषितम् मम विभो ज्ञानम् तदा पादयद्वैताद्वैत भवत् स्वरूप परमेत्याचेष्टतम् त्वाम्बजे आताम्रे चरणे विनम्रमततम् हस्ते न हस्ते स्पृशन् बोधस्ते भविता न सर्गविधिभिर्बन्धोऽपि सञ्जायते इत्या प्रतुष्य नितराम् तच्चित्तगूढः स्वयम् सृष्टौ तम् समुदैरयः स भगवन् उल्लायसोल्लाघताम्